आर्य जन सन्नुदा अम्बिका भावये धैर्यलक्ष्मीं सर्वकार्य फलदायिनी आर्यजन सन्नुदा अम्बिका भावये धैर्यलक्ष्मीं सर्वकार्यफलदायिनी आर्यजन सन्नुदा भावये श्रीपीठ सिंहासिनी महाराज्ञीं आपन्निवारिणीं मातङ्कारिणी श्रीपीठ सिंहासिनी सम्पत्स्वरूपिणी साम्रा जदायिनी व्यापिनी लोकै कली पाकुरा भजे सम्पत्स्वरूपिणी साम्रा जयिनी व्यापिनी कली पाकुर भजे धैर्यलक्ष्मी सर्वकार्य फलदायिनी आर्यजन सन्मुदा मम्बिका भावये धैर्य जनसन्मुदामम्बिकाम् भावये सकलसङ्कल्पफलसान्निध्यकारिणीम् अकलङ्कषसि मुखे कल्पफलसान्निध्यकारिणीम् अकलङ्कशिमुखी अनुग्रहविग्रहं विकृतभावात् कामिस्तुतजगन्मयी सुकृतजन गोचरां शुद्धा सदा भजे विकृतभावात् कामिस्तुतजगन्मयी सुकृत गोचरां शुद्धा यदा भजे आर्यजन सन्नुदा अम्बिका भावये धैर्यलक्ष्मीं सर्वकार्यफलदायिनीम् आर्यजन सन्नुदा अम्बिका भावये आर्यजन सन्